श्री जगदंबिका अथ श्रीमदेवी भागवत महापुराणे तृतीय स्कंधे सप्तमोध्याय ब्रह्म उवाच एवं प्रभावी मैं दृष्टि विष्णुना शिवनापी महाभागता दिव्या पृथक पृथक व्यास उच इने दुर्वाक्यम नारद मुन स प्रच्छ परमाप्त प्रजापतिमिदम् वचः नारद उवाच पुमानाद्यो विनाशीयो निर्गुणोच्युतीयव्ययः दृष्टश्चैवानुभूत च तद्वदस्व पितामह त्रिगुणा वीक्षिता शक्तिर्निर्गुणा कीदृशी पितः तस्यास्वरूपम् मे ब्रूहि पुरुषस्य च पद्मजः यदर्थञ्च मया तप्तम् श्वेतदीद्वीपे महात्पः दृष्ट्वा सिद्धा महात्माना तापसागतमम् मन्यवः परमात्मान सम्प्राप्तो मया स दृष्टिगोचरः पुनः पुनः सफलतीव्रम् कृतम् तत्र प्रजापते भवता स गुणाशक्तिर्दृष्टा तात मनोरमा निर्गुणा निर्गुणश्चैव कीदृशो तौ वदसमये गासोवाच इति पृष्टे पिता तेन ना नारदेन ना प्रजापतिः उवाच वचनम् तथ्यम् स्मितपूर्वं पितामह ब्रह्मोवाच निर्गुणस्य मुने रूपम् न भवेद् दृष्टिगोचरम् दृश्यञ्च नश्वरम् यस्मात् अरूपम् निर्गुणा दुर्गमा शक्ति निर्गुणश्च तथापमान् ज्ञानगम्यो मदीना तु भावनीयो तथा पुनः अनातिनिधरो विद्धि तदा प्रकृतिपूरुषौ विश्वासेनाभिगम्यतो विश्वासे न विश्वासेन कर्हि चेत् चैतन्यं चे सर्वभूतेषु यत्तद्विद्धि परात्मकम् ते च सर्वत्र नानाभावेषु नाद तञ्चताञ्च महाभागव्यापको विद्धि सर्वगौ ताभ्यां विहीनं संसारे न किञ्चिद्वस्तु विद्यते तौ विचिन्त्यौ सदा देहे मिश्रीभूतौ सुव्ययौ एकरूपौ चिदात्मानो निर्गुणो निर्मलौ भौ या शक्ति परमात्मासु योऽसौ सा परमामता अन्तरं नैत यो कोऽपि सुक्कं वेदचनारद अधीत्य सर्वशास्त्राणि वेदान्ताङ्गाचनार्दे न जानाति तयोः सूक्ष्मम् अन्तरम् विरतिं विना अहंकारे कुतम् सर्वं विश्वं स्थावरजङ्गमम् कथं तद्रहितं पुत्र भवेत् कल्पशतेरपि निर्गुणं सगुणम् पुत्र कथं पश्यति चक्षुषा सगुणं च महाबुद्धे चेतसाहसं विचारय दिव्वा च्छादितं जिह्वा चक्षुषमुनिषत्तमा कटुपित्तं विजानाति रसं तत्तथा गुणै समावृतं चेत् कथं जानाति निर्गुणं, अहङ्कारोद्भवं तच्च तद्भिन्नम् कथं भवेत् यावन्न गुणविच्छेदय तावत्त दर्शनं कुतः तत्पश्यति तदा चित्ते यदाहङ्कारवर्जितः भारदुवाच स्वरूपं देवदेवे च त्रयाणामेव विस्तरात् गुणानां यत् स्वरूपोऽस्ति ह्यहङ्कारत्रिरूपकः सात्विको राजसश्चैव तामसश्च तथापरः विभेदेन स्वरूपाणि वदस्व पुरुषोत्तम यज्ञात्वा विप्रमुच्येऽहम् ज्ञानम् तद्वद मे प्रभो गुणानाम् लक्षणान्येव वितथानि विभागच हे ब्रह्मोवाच त्रयाणाम् शक्तिरस्तिस्र तद्रवीमितवानघ ज्ञानशक्ति क्रियाशक्ति अर्थशक्ति तथा परा शास्त्रैकस्य ज्ञानशक्ति राजसस्य क्रियात्मिका द्रव्यशक्ति तामसस्य तिस्र च कथितास्तव तेषां कार्याणि वक्ष्यामि शृणु नारदतत्त्वतः तामस्य द्रव्यशक्ते च शब्दस्पर्शोद्भवः रूपं रसश्च गन्धश्च तन्मा प्राणि प्रजक्षते शब्दैकगुणमाकाशं वायुस्पर्श गुणस्तथा स्वरूपैक गुणोऽग्ने जलं दश गुणात्मकम् पृथ्वी गन्धगुणात् नेय सुक्ष्मान्येतानिनार्द दशयतानि मिलित्वा तु द्रव्यशक्तियुतानि वै तामसाहङ्कारजः स्यात् स्वर्गस्तदनुवृत्तिकः राजस्याश्च क्रियाशक्तिरुत्पन्नानि शृणुष्व मे श्रोत्वम् तग्रसनर्शना चक्षु घ्राणम् चैव च पञ्चमम् ज्ञानेन्द्रियाणि चैतानि तथा कर्मेन्द्रियाणि च वाक्पाणिपाद वायु च गुह्यातानि च पञ्चवै प्राणोपानश्च व्यानश्च समानोदान वायवः पञ्चदशमिलित्वैव राजसर्ग उच्यते साधनानि किलैतानि क्रियाशक्तिमयानि च उपादानं किल तेषाञ्चिद् अनुवृत्ति उच्यते ज्ञानशक्ति समायुक्ता सात्विकार्च समुद्भवा दिशो वायु च सूर्य च वरुण च अश्विनावपि ज्ञानेन्द्रियाणां पञ्चानां पञ्चाधिष्ठातृदेवदेवता चन्द्रो ब्रह्मा तथा रुद्रक्षेत्रज्ञश्च चतुर्थकः इत्यन्तःकरणाख्यस्य बुद्ध्यादेशश्चादिदैवतम् चत्वारि एव तथा प्रोक्ता किला धीष्ठातृदेवता मनसा सह चैतानि नूनम् पञ्चदशेव तु सात्विकस्य तु सर्वोऽयम् सात्विकाख्यः प्रगेशितः स्थूलसूक्ष्मादिभेदेन द्विरूपे परमात्मनः ज्ञानरूपम् निराकारम् निदान्नम् तत् प्रजक्षते साधकस्य तु ध्यानादौ स्थूलरूपम् प्रजक्षते शरीरम् सूक्ष्मेवेदम् पुरुषस्य प्रकीर्तितम् मम चैव शरीरम् वै सूत्रम् इत्यभिधीयते स्थूलम् शरीरम् वक्षामि ब्रह्मणः परमात्मनः शृणो नारदयत्नेन यच्छ्रुत्वा विप्रमुच्यते तन्मात्राणि पुरोक्तानि भूतसूक्ष्माणि यानि वै पञ्चीकृत्य तान्येव पञ्चभूतसमुद्भव पञ्चीकरणभेदोऽयम् श्रुणु संवदः किर प्रथमम् रस तन्मात्रा उपादाय मनस्यपि कल्पये च तथा तद्वैता भवति चोदकम् शिष्टानाम् चैव भूतानाम् अंशान् कृत्वा पृथक् पृथक् उदके मिश्रिये चांशान् तदा भूतविभागे च चैतन्ये च प्रकाशिते चैतन्यस्य प्रवेशात्तु तदाहम् इति संशयः प्रतीयमाने तेनैव विशेषेणाभिमानतः आदिनारायणो देवो भगवान् इति चोच्यते घनीभूते तद्भूतानां विभागे स्पष्टतां गते वृद्धिं प्राप्य गुणे एकैक एक गुणवृद्धितः आकाशस्य गुणश्चैकशब्द एव न चापरः शब्दस्पर्शो च वायु च द्वौ गुणौ परिकीर्तितौ अग्ने शब्दश्च स्पर्श च रूपमेते त्रयो गुणा शब्दस्पर्श रूपरस चत्वार्शब्दरसारूपं गन्धश्च पृथिवीगुणा एवम् मिलितयोगै च ब्रह्माण्डोत्पत्ति उच्चते सर्वे जीवा मिलित्वैव ब्रह्माण्डांशत् समुद्भवा चतुरशीतिलक्षा च प्रोक्ता वेजी वदातयः इति श्रीमद्देवी भागवते महापुराणे अष्टादशताद्र्याम् संहितायाम् तृतीयस्कन्धे तत्त्वनिरूपणवर्णनम् नाम सप्तमोऽध्यायः श्री श्रीजगदम्बिकायार्मणमास्तु